हरिः ओ गणानान्त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्तत आनशृण्वनोतिभिः सीदसादनम् महागणपतजे नमः महा। ॐ इयमददाद्रभसमृणच्युतम् दिवो ओ दासंवध्यश्वा यदाशुषे या शश्वखादा आवसम् पण्न्ता ते पारावतघ्नीमवसे सुवृत्तिभिः सरस्वती माविवासे वधीतिभिः सरस्वति देवनिदो निबर्हज प्रजाम् विश्वस्य पृषजस्य माजिनाः उदक्षितिभ्यो वनीरविन्दो विषमे एभ्यो अश्रवो प्रणो आ देवि सरस्वती वाजे एभिर्वाजिनीवती धीनामभित्र्यवतु यस्त्वा आ देवि सरस्वत्युपब्रूते धने एहिते इन्द्रन्न वृत्रतूर्ये ए, ए त्वन्दे रदापूषेव नः सलिम् उत स्या नः सरस्वती घोराहिरन्यवर्तनिः वृत्रघ्नीवष्टि सुष्टुतिम् यस्या अनन्तो अहृतस्त्वेषश्चरिष्णुरणवः अमश्चरतिरोरुवत् नो विश्वा अदिद्विषस्वसृरन्या ऋतावरी अकन्दहे एव सूर्याः उत नः प्रिया प्रियासु सप्त स्व सासु जुष्टा सरस्वती अन्तरिक्षम् सरस्वती निदस्पातु त्रिशधस्था आसप्तधा आतुः पञ्च जाता वर्धयन्ति वाजे एवाजेहंव्या अभूत् प्रजा महिम्ना महिना असुचेकिते द्युम्नेऽभिधन्या अपसा अवपस्तमा रथ इव बृहति विध्वने पस्तुत्या आचिकितुषा सरस्वती सरस्वत्यभिनौ ओने शिवस्यो मापस्फरीः पयसा मान आधके जुषस्वनः सख्या वेश्या गन्मा प्रक्षोदसाधाजसा सस्र एषा सरस्वती धरुणमाजसीपोः विश्वा अपो बहिना सिन्धुरन्याः एका आचेतत्सरस्वती नदीनाम् शुचिर्यतिगिरिभ्य आसमुद्रात् राजश्चेतन्ति भुवनस्य भूरे एर्भृतम् वयो ओ दुदुहेनाहुषाजा स वा आवृधे नर्योजोषडासु वृषा शिशुर्वृषभो जज्ञिजा आसु स उत स्या नः सरस्वतीजुषाणोपश्रवत्सुभगाजज्ञे अस्मिन् मितज्ञुभिर्नमस्यैरिजाना राजायुजाचिदुत्तरा सखिभ्यः इवाजुह्वा आनाजुष्मदा नमो ओभिः प्रति स्तोमम् सरस्वतिजुषस्व तव शर्मन् प्रियतवेदधा आना उपस्थे रामचरणन्न वृक्षम् अजमुते सरस्वति वसिष्ठो द्वारा आवृतस्य आवह वर्धशुभ्रे स्तुभतेरा आ, आ शिवा जाने बृहदुगायुषे वचो ओसुर्यानदीना सरस्वती सानो ध्यमित्री मरुत्सखा चोदराधो ओ मघोना भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती गृणानाजमदग्निवत्स्तुवाना च वसिष्ठवते जनीयन्तोन्वग्रवः पुत्री यन्तः सरस्वन्तम् हवामहे ये ते ए सरस्व ऊर्वजो मधुमन्तोऽभृतश्च्युताः तेभिन्नो विता भव ते पिवां विश्वदर्शतः भक्षी प्रजाविषम् अम्बिमे नदी ईतमे देवि तमे सरस्वती अप्रशस्ता इव स्वसि प्रशस्तिमम् वनस्पृधी द्वे विश्वा सरस्वति श्रितायोम् श्रीदेव्याम् शुनः ओत्रेशु मत्स्व प्रजान्दे विदिड्ढिनः मा ब्रह्म सरस्वति जुषस्व वाजिनीवती या ते मन्मगृत्समदा कृतावरि प्रिया देवेषु जुह्वती पावकालः सरस्वती वाजे एभिर्वाजिनीवती चोदयित्रीसूनृतानाञ्चेतन्ति सुमतीनाम् यज्ञम् दधे सरस्वती महो अण्डः सरस्वती प्रचेतयति केतुना धिजो विश्वा विराजति सरस्वतीम् देवयन्तो हवन्ते सरस्वतीमध्वरे ताजमा आने सरस्वतीम् सुकृतो आह्वयन्त सरस्वती दाशुषे वार्यन्दात् सरस्वतिजा सरथञ यजाथ स्वधाभिर्देवि पितृभिर्वदन्ति आसद्यार्षि बादगस्वानमीव इिश आधे्यस्मेंवती हे दक्षिणाज्ञपिदक्षणा सहस्राघमिड़ो अग राग पोषय्यज बाणश दे नो ओ दिवो बृहतः पर्वता दासरस्वती गजतागन्तु यज्ञम् हवन् देवीजुजुषाडाघृताची जग्मान्नोवाच बुशति शृणोतु राकामहम्सुहवाम् सुष्ठुति हुवे शृणोतु नः सुभगा बोधतुत्मना सेव्यत्वपः सूच्याच्छिद्यमानजा ददातु वीरम् शतदा आजमुख्यम् यास्तेराके सुमतगः सुपेशसोजाभिर्ददा आसि दाशुषेवसूनि भिन्दो अद्य सुमना उबा ग सहस्रपोषम् सुभगेरराणा सिनी इवालिपृथुष्टुकेजा देवानामसि प्रजान्दे विदिड्ढिनः यासु बाहु स्वुरिः सुषुमा आ बहु सोवरी तस्यैविष्पत्न्यैहविसिनीवाल्यै जुहोतना या गुङ्गूर्यासिनीवाली या रागा